गणेशपुराणम् उपासनाखण्डम् अध्यायं सेवेण्टी त्रि इन्द्र उवाच गुरूपदिष्टम् अन्ध्रं चापनियमेन सह ज्यायङ्गजाननं देवं निष्ठामास्ताय नैष्टिकीं वायुभक्षो निराहारो लोष्टपाषाणसन्निभः एवं द्वादशवर्षाणि व्यतीतानि तपस्यतः हस्तपादविहीनस्य बालकस्य महात्मनः निर्वाणं तस्य तद्दृष्ट्वा द्वादशाब्दं गजाननः ताडागमध्यादुत्तस्तौ प्रवालमयमूर्तिगः उवाच स्मुखो भूत निति सुतषि गणेश उवाच निर्जनेस्म सिंहव्याख्र निषे निकुंजबुे ठो द्वादशवाषिकेखं वरम दा शृणुय मनोगतम खणी तदुदितासुदो न्वा प्रोवाज्दान शुणुत्सुनिषु विमस्ु भूरिश पुत्र उवाच त्दयुले देभक्तिरव्यचारिणी स्तु मे स ददं नान्यदुत्साहो मे प्रियाचि मे तथापि याचे देवेश पित्रोः सन्तोषहेतवे शरीरे चारुदां देहि सर्वसन्तोषकारिणीम् इन्द्र उवाच श्रुत्वा वाक्यं तदीयं तु मायावी स गजाननः अणिमानं समास्ताय विवेश्योदरमादरात् तस्मिन् प्रविष्टे पुत्रोऽसौ दिव्यदेहो भवन्नृप सहस्रभुजवाञ्जाधृदवीर्यात्मजस्तदा ऋजुपादद्वयुधस्थितः पर्वदसन्निभः ववर्षु पुष्पवर्षाणि देवादेवर्षयोऽपि च तुष्टुगुस्तं च देवं च गीतवादित्रनिःस्वनैः तस्य शब्दं समाकर्ण्य खनगर्जितसन्निभं समवर्ती दृश्यत्रस्तः परेषां गणनाकुतः पृथिव्यां सर्वराजानः सम्यक् पन्ततद्धयाद अयं पञ्चशतं बाणान् सङ्ग्रामे मोचयेदिति ब्रह्मादयस्ततो यानादुत्तीर्याध तमब्रुवन् स्मरणात्तव देवानां प्राप्ति स्याद्गतवस्तुनः हृदिस्थं सर्वलोकानामामयं त्वं विनेष्यसि यतः साक्षाद्विष्णुरूपसहस्रार्जुन सञ्जया त्रिषु विख्यादो विख्यातो यावत्कल्पं भविष्यसि साधुत्राणेजनिरधशरणागतपालकः निरत सर्वशत्रूणां पृथिवीं मण्डलाधिपः इति नानावरान् दत्त्वा पिदधुर्देवतागणः हस्त्यश्व नरयानानि चत्रचामरदीपिकाः रथानुपायनान्यजह्रूरकिला नृपाः तदः संस्थापयामासप्रासादमध्यगां प्रावालीं गणनाथस्य मूर्तिं प्रवालगणप नाम दधुर्ज दद ग्रामे पूजाई स्थापित प्रवालक्षेत्र तत् भु विद्रेषोधराम धर्मनुष्ठानद तस्गणेशा वरान् बहुधरानपि धराधरणसामर्थ्यं सर्वज्ञात्वं तथैव च मूर्ध्ना सहस्रं शैष्ट्यं च नवनागकुलेष्वपि अधिसन्तुष्टमनसा तेन यस्थापितं पुरा धरणीधर इत्येवं द्वितीयं नाम पप्रधे स्मरदां शृण्वतां चापि सर्वकामफलप्रतम् सम्पूज्य सर्वान् द्विजपुङ्गवांस्तान् राज्ञश्च सर्वान्ननुपृच्छ्य चैतान् सहस्रबाहुर्नगरं स्वकीयं द्रष्टुं स्वमादापिदरावधागाद जहर्षतु स्तौ तं दृष्ट्वा नगरं च तथाविधं दददुर्द्विजमुख्येभ्यो नानादानानि सर्वशः इन्द्र उवाच अभ्यथापिदुसङ्कष्टचतुर्थी महिमाद्भुदः कृतवीर्यसुदाचायमृत्युलोकं गतः शुभः अनुभूतः सुरगणायश्चन्द्रसेनादिभिर्नृपैः अधिपुण्यतमश्चायं स्मरणादपि सिद्धितः यत्प्रसादात् सम्प्राप्ता रावणेना किराज्ञता यत्प्रसादा सम्प्राप्तं कि पुराराज्यं च पाण्डवै ये तद्व्रतस्य यत्पुण्यं हस्ते मे दीयते यदि तदैव तद्विमानं तु प्रचलेदमरावतीं क उवाच इति शक्रमुखान्तस्य व्रतस्य महिमाश्रुतः शूरसेन भूपेन स्वानन्दाब्धौ निमज्जताम् वन्दिते पादकमले शक्रस्य प्रदिगर्जिता तमुवाच तथप्रीदशुरसेनो नृपोत्तमः श्रुत्वा कथां दिव्यरूपां चतुर्थी व्रतसम्भवां स उवाच फलितं पूर्वपुण्यं मे येनाश्रावीदृश्यं व्रतम् नाखये हये तस्मात् पुण्यतरं त्रिषु लोकेषु किञ्चन इत्युक्त्वा शक्रमारेभे व्रतं कर्तुं स्वयं तदः यदि श्रीगणेशपुराणे उपासनाखण्डे चतुर्थी व्रतमाहात्म्यं नाम त्रिसप्ततितमोऽध्यायः ओ